अथ सप्तविंशः सर्गः एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी प्रणयादेव सङ्क्रुद्धा भर्तारमिदमब्रवीत् किमिदम् भाषसे रामवाक्यम् लघुतया ध्रुवम् त्वया यदपहास्यम् मे श्रुत्वा नरवरोत्तमा वीराणाम् राजपुत्राणाम् शस्त्रास्त्रविदुषा अनर्हमयशस्यम् च न श्रोतव्यम् त्वयेरितम् आर्यपुत्रपिता माता भ्राता पुत्रस्तथा स्नुषा स्वानि पुण्यानि भुञ्जाना स्वम् स्वम् भाग्यमुपासते भर्तुर्भाग्यम् तु नार्येका प्राप्नोति पुरुषऋषभा अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि न पितानात्मजो वात्मा न माता न इह प्रेत्य च नारीणाम् पतिरेको गतिः सदा यदि प्रस्थितो दुर्गं वनमद्यैव राघव अग्रतस्ते गमिष्यामि मृद्गन्ती कुशकण्टकान् ईर्ष्याम् रोषम् बहिष्कृत्य भुक्तशेषमिवोदकम् नयमाम् वीरविश्रब्धः पापम् मयि विद्यते प्रासादाग्रे विमानैर्वा वैहायसगतेन वा सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम् नास्मि सम्प्रति वक्तव्या वर्तितव्यम् यथा मया अहम् दुर्गम् गमिष्यामि वनम् पुरुषवर्जितम् नानामृगणाकीर्णम् शार्दूलगणसेवितम् सुखम् वने निवत्स्यामि यथैव भवने पितुः अचिन्तयन्ती त्रीम् लोकांश्चिन्तयन्ती पतिव्रतम् शुश्रूषमाणा ते नियता ब्रह्मचारिणी सह त्वया वीरवनेषु मधुगन्धिषु त्वम् हि कर्तुम् वने शक्तो अन्यस्यापि जनस्येह किम् पुनर्मम मा नदा त्वया गमिष्यामि वनमद्य संशयः नाहम् शक्या महाभागनिवर्तयितुमुद्यत फलमूलाशना नित्यम् भविष्यामि न संशयः न ते दुःखम् करिष्यामि निवसन्ती त्वया सदा अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवती त्वयि इच्छामि परतः शैलान् पल्वलानि सरांसि च सर्वत्र निर्भीता त्वया नाथेन धीमता हंसकारिण्ड वा कीर्णाः पद्मिनीः साधु पुष्पिताः इच्छेयम् सुखिनी द्रष्टुम् त्वया वीरेण सङ्गता अभिषेकम् करिष्यामि तासु नित्यमनोव्रता सः त्वया विशालाक्षरंस्ये परमनन्दिनी एवम् वर्षसहस्राणि शतम् वापि सह यतिक्रमम् न वेत्स्यामि स्वर्गोऽपि स्वर्गेऽपि च विना वासो भविता यदि राघव त्वया विना नरव्याघ्रनाहम् तदपि रोचये अहङ्गमिष्यामि वनम् सुदुर्गमम् मृगायुतम् वा नरवारणैश्च वने निवत्स्यामि यथापि दुर्गृहे तवैव पादावुपगृह्य सम्मता अनन्यभावामनुरक्तचेतसम् त्वया वियुक्ताम् मरणाय निश्चिता नय स्व माम् गुरुता भविष्यति तथा ब्रुवाणामपि धर्मवत्सलान्न च स्म सीतान् उवाच चैनाम् वने निवासस्य च दुःखिताम् प्रति इत्यादर्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे सप्तविंशः